अशीतितमम् दशकम् सत्रादितत्त्वमथ लुब्धवदर्कलब्धम् दिव्यम् स्यमन्तकमणिम् भगवन् नयाकीः तत्कारणम् बहुविधम् मम भाति नूनम् तस्यात्मजान् त्वयि अद सन्तम् तुभ्यम् मणिवरमणीनाल्पमनसा रसेन तद्धाता गलभुविवहन् प्रापमृगयाम् अहम् एनम् सिंहो मणिमहसि सभ्रमवशात् कपीन्द्रस्थम् हत्वा मणिमपि च बालाय ददिमान् शशम् त्रादिग्गिरमनुजनास्त्वाम् मणिहरम् जनानाम् पीयूषम् भवति गुणिनाम् दोषकणिका ततः स्वजनसहितो मार्गणपरः प्रसेनम् दृष्ट्वा हरिमपि भूः कतिगुहाम् भवन्तमवितर्कयन्तिवय स्वयम् जाम्भवान् मुकुन्दशरणम् हिमाङ्कैहरोद्धुमित्यलपन् विभो रघुपते हरे जय जयेत्यलम् मुष्टिभिः चिरं तव समर्चनम् व्यथितभक्तचूडामणिः थ तेन दत्तान् न वरमणिम् वरमणिम् च परिगृह्णन् अनुगृह्णन् न मुमागाः सपदि च सत्रादिते मणिम् प्रादाः तदनु स खलु व्रीडालोलो विलोलविलोचनाम् अदितमणिना तुभ्यम् लभ्यम् समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणिम् गहनाशयः व्रीडाकुलान् रमयति सत्यभामाम् कौन्ते यदाह कथयाथ कुरून् ी गान्दिनेयकृतवर्मगिरा निपात्य सत्रादितम् शतधनुर्मणिमाजहार शोकात् कुरूनुपगतामवलोक्य कान्ताम् हत्वा द्रुतम् शतधनुं समहर्षयस्ताम् रत्ने सशङ्क इव रामो गदाम् समशिशिक्षतधार्तराष्ट्रम् अक्रूर एष भगवन् भवदिच्छयैव सत्रादितः कुचरितस्य ययोजहिंसाम् अक्रूरतो मणिमनाहृतवान् पुनः त्वम् तस्यैव भूतिमुपधातुमिति ब्रुवन्ति भक्तत्वयि स्थिरतरस्त हि गान्दिनीयः तस्यैव कापथमतिः कथमीश जाता विज्ञानवान् प्रशमवानहमित्युदीर्णम् गर्वम् ध्रुवम् शमयितुम् भवता कृतैव यातम् भयेन कृतवर्मयुतम् पुनः आहूय तद्हित मणि प्रकाश्य त्रतधरे विधायकुचा तरशय पवनश पाया